अथ त्रिपञ्चाशः सर्गः सतम् वृक्षम् समासाद्य सन्ध्यामन्वास्य पश्चिमा रामो रमयताम् श्रेष्ठ इति होवाच लक्ष्मणम् अद्येयम् प्रथमा रात्रिर्याता जनपदाद् बहिः या रहिता तान्नोत्कण्ठितुमर्हसि जागर्तव्यमतन्त्रिभ्यामद्य प्रभृतिरात्रिषु योगक्षेमौ हि सीताया वर्तेते लक्ष्मणावयोः रात्रिम् कथञ्चिदेवेमाम् सौमित्रे वर्तयामहे अपवर्तामहे भूमा वा स्तीर्यस्वयमर्जितैः स तु संविश्य इमा सौमित्रये रामो व्याजहारकथा शुभा ध्रुवमद्य महाराजो दुःखम् स्वपिति लक्ष्मणा कृतकामा तु कैकेयी तुष्टा भवितु सा हि देवी महाराजम् कैकेयी राज्यकारणात् अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतमागतम् अनाथश्च हि वृद्धश्च मया चैव विना किम् कामात्मा कैकेय्यावशमागतः इदम् व्यसनमालोक्य राज्ञश्च मतिविभ्रमम् काम एवार्थधर्माभ्याम् गरीयानिति मे कोह्य विद्वानपि पुमान् प्रमदायाः कृते त्यजेत् छन्दानुवर्तिनम् पुत्रम् तातो सुखी बत सुभार्यश्च भरतः केकयीसुतः मुदितान् कोसलानेको यो भोक्ष्यत्यधिराजवत् स हि राज्यस्य सर्वस्य सुखमेकम् भविष्यति ता ते तु वयसातीते मयि शारण्यमाश्रिते अर्थधर्मौ परित्यज्य यः काममनुवर्तते एवमापद्यते राजा दशरथो यथा मन्ये दशरथान्ताय मम प्रव्राजनाय च कैकेयी सौम्यसम्प्राप्ता राज्याय भरतस्य च अपीदानीम् तु कैकेयी सौभाग्यमदमोहिता कौसल्याञ्च सुमित्राञ्च सा प्रबाधेत मत्कृते मातास्मत्कारणाद्देवी सुमित्रा दुःखमावसेत् अयोध्यामित एवत्वं त्वम् काले प्रविशलक्ष्मणा अहमेको गमिष्यामि सीतया सह दण्डकान् अनाथाया हि नाथस्त्वम् कौसल्याया भविष्यसि क्षुद्रकर्मा हि कैकेयी द्वेषादन्यायमाचरेत् परिद्याद्धि धर्मज्ञकरम् मम मातरम् नूनम् चात्यन्तरेतातस्त्रियः पुत्रैर्वियोजिताः जनन्या मम सौमित्रे तदद्यैतदुपस्थितम् मया हि चिरपुष्टेन दुःखसंवर्धितेन च विप्रयुज्यत कौसल्या फलकालेऽधिगस्तु माम् मा स्म सीमन्ति नी काचिज्जनयेत्पुत्रमीदृशम् सौमित्रे योऽहमम्बाया का मन्ये प्रीतिविशिष्टा मत्तो लक्ष्मणसारिका यत्तस्याूयते वाक्यम् शुकपादमरेऽर्दशा शोचन्त्याश्चाल्पभाग्याय न किञ्चिदुपकुर्वता पुत्रेण किम पुत्राय मया कार्यमरिन्दमा अल्पभाग्या हि मे माता कौसल्या रहिता पतिता शोकसागरे तरेयमिषभिः क्रुद्धो ननु वीर्यमकारणम् अधर्मभयभीतश्च परलोकस्य चानघा तेन लक्ष्मणनाद्याहमात्मानमभिषेचये एतदन्यच्च करुणं विलप्य विजने बहू अश्रुपूर्णमुखो दीनो निशि तूष्णीमुपाविशत् विलापो परतम् रामम् गतार्चिषमिवानलम् समुद्रमिव निर्वेगमाश्वासयत लक्ष्मणः ध्रुवमद्यपुरी राम अयोध्यायुधिनाम् वरा निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी नैतदौपयिकम् राम यदिदम् परितप्यसे विषादयसि सीताम् च माम् चैव पुरुषऋषभा न च सीता त्वयाहीना न राघव मुहूर्तमपि जीवावो जलान्मत्स्याविवोद्धृतौ न हिता तम् न शत्रुघ्नम् न सुमित्राम् परन्तप द्रष्टुमिच्छेयमद्याहम् स्वर्गम् चापि त्वया विना ततस्तत्र समासीनौ नातिदूरे निरीक्षताम् यग्रोधे सुकृताम् भेजाते भे जाते धर्म वत्सलौ स लक्ष्मणस्योत्तम पुष्कलम् वचो विदधे परम् तपः महाबलौ महावने राघव न तौ भयम् सम्भ्रममभ्युपेयतुर्यथैव सिम्भौ गिरिसानुगोचरौ इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रिपञ्चाशः